महावाक्यरत्नाबले एकोनवंशं प्रकरणम् अथ सार्धान्तिकफलवाक्यानि चत्वारिंशत् स यो ह वै तत्परमम् ब्रह्मवेद ब्रह्म एव भवति ब्रह्मवेदाप्नोति परम् ब्रह्मसंस्थोमृतत्वमेति तरतिशोकमात्मवित् य एवं वेद अहम् ब्रह्मास्मेति स इदम् सर्वम् भवति स एष विशुकृतो विदुष्कृतो ब्रह्मविद्विद्वान् तद्ब्रह्मैवाहमस्मेति ब्रह्म प्रणवम् अनुस्मरन् भ्रमरकीटनयायेन शरीरत्रयमुत्सृज्य सन्न्यासेनैव देहत्यागम् करोति सकृतकृत्यो भवति तमे ज्ञात्वा विद्वान् मृत्युमुखात् प्रमुच्यते तदेवं विद्वांस इहैवामृता भवन्ति अनाद्यनन्तम् महतः परम् ध्रुवम् निचाय्य तम् मृत्युमुखात् प्रमुच्यते यज्ञात्वामुच्यते जन्तुरमृतत्वम् च गच्छति यदा पश्यः पश्यते रुक्मवर्णम् कर्ता रमेशम् पुरुषम् ब्रह्मयोनिम् तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति एतद्यो वेदनिहितं गुहायां सो सोविद्याग्रन्थिं विकिरतेह सोम्यिद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे यथा नद्य स्यन्दमानाः समुद्रेष्टं गच्छन्ति नामरूपे विहाय तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ज्ञात्वा तं मृत्युमत्येति नान्यः विमुक्तये तद्ब्रह्माहम् इति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम् यत्र यत्र मृतोज्ञाने परमाक्षरवित्सदा परब्रह्मणि लीयते न तस्योत्क्रान्तिरिष्यते यद्यत्स्वाभिमतं वस्तु तत्यजन् मोक्षमश्नुते असङ्कल्पसन्नसन्शस्त्रेण छिन्नं चित्तमिदं यदा सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् विसृज्य ध्यानयोगेन ब्रह्माप्येति सुनातनम् इवात्मानं विलयं वेत्ते तत्त्वतः स गच्छति निरालम्बं ज्ञानालोकं सुनातनम् तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च यस्तिष्ठति तदेवाहम् इति मत्वा न शोचते सर्वसाक्षिणमात्मानम् वर्णाश्रमविवर्जितम् ब्रह्मरूपतया पश्यन् ब्रह्म इव भवत्यस्वयम् तद्ब्रह्मानन्दम् अद्वन्द्वम् निर्गुणम् सत्यचिद्गुणम् विदित्वा स्वात्मनो रूपम् न बिभेते कुतश्चन वासुनाम् सम्परित्यज्य मये चिन्मात्रविग्रहे यस्तिष्ठति गतः स्नेहः सोऽहंसच्चित्सुखात्मकः दर्शनादर्शने हित्वा स्वयम् केवलरूपतः य आस्ते कपिशार्दूलब्रह्म न ब्रह्मवित् स्वयम् इति सार्धान्तिकफलवाक्याने चत्वारिंशत् एकोनविंशं प्रकरणं समाप्तम्